मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं टु अहमासुरराज्यप्राप्तिवर्णनम् श्रीगणेशाय नमः श्रीशिव उवाच एवं वर्षसहस्रेण तं दिव्येन गजाननः ययौ प्रसन्नभावेन भक्र्या वरार्थमादराद आखुवाहस्त्रिनेत्रश्च गजवक्त्रो महोदरः चतुर्भुजश्च पाशाध्यायिशोभितसिद्धिबुद्धियुग एकदन्तश्यूपकर्णो देवैर्मुनिसमन्वितैः संस्तुतस्वगणैश्चैव सेवितः सर्वदायकः तं दृष्ट्वा हंसमुद्धाय प्रणनाम कृताञ्जलिः पूजयामास विघ्नेशं सिद्धिबुद्धिसमन्वितं तथ क्रमेण देवान् स मुनीन्पूज्य पुनः प्रणानाम प्रदुष्टाव गणेशम् प्रकृता अहमुवाच नमस्ते हे गणना परात्मने सर्वेभ्यो वरदात्रेते वरदा नमो नम ब्रह्म सुब्रह्मयुस्वस्वू सांख्याय परत उद्धानस्तेषु नमो नमः ज्ञानेषु बोधरूपाय सोऽहन्देहिषु ते नमः देहेषु बिन्दुरूपाय विघ्नेशाय नमो नमः स्रष्टुषु ब्रह्मदेवाय विष्णवे पालकेषु ते संहरतृषु शिवायैवैकदन्ताय नमो नमः प्रकाशकेषु सूर्याय मोहकेषु च शक्तये देवेषु देवराजाय विनायकाय नमः अग्नये ते, ते दासकेषु यमाय निधिधारिणां रक्षस्सु नैरृतायैव शूर्पकर्णाय ते नमः वायवे बलयुक्तेषु निधिषु धनपायते रुद्रेषु कालरूपाया नमो लम्बोदराय वै दक्षाया नागेशे शेषरूपिणे अनन्दविभवायैव वा किं ते स्तौमि नमो नमः यं स्तों न समर्थाश्च वेदाद्या योगिनो मलाः तं किं स्तवीमि विघ्नेशमल्पबुद्धिप्रधारकः धन्योऽहं कृतकृत्योऽहं सफलो मे भवः पिता मादाकुलं तथा ज्ञानं त्वदङ्घ्रियुगदर्शनाद एवमुक्त्वा गणेशानं प्रणनाम महासुरः हर्षेण महदायुक्तस्तमुवाच गजाननः श्रीगणेश उवाच त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेद् पठदे शृण्वदे चैव मयि भावप्रदायकम् पुत्रपौत्रादिकं सौख्यं भुक्तिं लभे लभेन्नरः अस्य पठनमात्रेण मद्भक्तिं भ्रमनाशिनीम् वरान् वृणुमहाभागमनेप्सितान् ददाम्यहं तपःसास्तोत्र मुख्येन तुष्टोऽहं ते महादराद अहमुवाच प्रसन्नोऽसि यदानाध भक्तिं देहि त्वदीयिकां यद्यदिच्छामि तत्तन्मे सफलं सर्वदास्तु च मायाविकारयुक्तेभ्यो मरणं नैव मे राज्यं राज्यम् ब्रह्माण्डगोलक्ष्य देहि मे भोगसंयुदम् आरोग्यम् विजयं ढुण्ढे संग्रामे ह्यदुलम् तथा अमोकास्त्रं सदा मे स्तुत्वत्प्रसादाच्च देहिभोहो भोः देवो जगादगणनायकः अन्धर्धाय स्वमात्मानं निजलोकम् जगामः ततोदिहर्षसंयुक्दोऽहम् जगाम कविं पुनः प्रणम्य स्ववृत्तान्तं कथयामास विस्तराद श्रुत्वा मुनिवरसोऽपि तं प्रशंस्य महासुरम् असुरानाह्वयमासश्रेष्ठान् काव्यो महामदिः तस्याज्ञया त्वरा बन्धो मुनिं सर्वे समागताः असुरां स्तान् महातेजा हिदम् काव्यो जगादवै अहमासुरवृत्तान्तं श्रुत्वा ते शुक्रवक्त्रतः हर्षितास्तं प्रणम्यादौ जगुर्वचोहितावहम् असुराौचुः आज्ञापय महायोगिन् कार्यं चेदोगतं प्रभो करिष्यामो वयं दासास्त्वत्पादस्य जवान्विदः तेषां वचनमाकर्ण्य काव्यसर्वार्थको विदः ब्राह्मणान्वेदनिष्ठांश्च समानाय्य पुुजः तैरकं सिञ्चयामासासुराणां राज्यकर्मणि यथा शास्त्रविधानेन दैत्याधीशम् चकारः प्रधानास्तस्य पञ्चाः सन् सुदृढास्तेजसा युताः शङ्खो वेदघ्नखः कालः धर्मधारकः नगरं निर्ममे सोऽपि विषयप्रियनामकम् अहमासुरकस्तत्र राज्यम् चकार हर्षदः समायादानिवासार्थम् जनावर्णाश्रमान्विताः असुराविविधाश्चैव सुखम् लेभुः समास्थिताः प्रमादासुरपुत्रीं वै ममताम् धूपशालिनीम् तस्मै ददौ प्रपादश्च यौवनस्ताम् महात्मने मम दासंयुधो रेमे दैत्येन्द्रोऽहम् प्रकर्षितः मोहितो मायया तस्या ममताया वशे स्थितः तस्याम् पुत्रौ महावीर्यौ जनयामास दैत्यपः गर्वश्रेष्ठौ तयोर्नाम चकृ सर्वे द्विजादयः एवं बहौ गदे काले किं स्थितोऽसि महावीर जयदेवादिकान् प्रभो वरदानबलेन त्वं निर्भयोऽसि न संशयः वराणां सफलं सर्वं कुरु भोगपरमहः तथेदिश्वशुरं सोऽपि जगादाहं प्रतापवान् समानाय्य कविं तत्र पूजयामास दैत्यपैः तस्याज्ञां गृह्य दैत्यस्य परान् दैत्यान् समाह्वयद तैः संयुतः स शुक्रेण प्रधानाय शुशुभे तत्र सर्वानाज्ञापयत् प्रभुः सन्नद्धास्तं समाजग्मुर्दैत्या परमदारुणाः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते अहमासुरराज्यप्राप्तिवर्णनं नाम ॐ